अथ द्विसप्ततितमोऽध्यायः कण्व उवाच एवमुक्तस्तया शक्रः संविदेश सदा गतिं प्रातिष्ठत तदा काले मेनका वायुना सह अथापश्यद्वरारोह तपसा दग्धकिल्बिषं विश्वामित्रं तप्यमानं मेनका भीरुराश्रमे अभिवाद्यततः सातं सन्निधौ अपोवाह च वासोऽस्या मारुतः शशिसन्निधं सा गच्छत्वरिता भूमिम् वासस्तदभिलिप्सति स्मयमानेव सव्रीडं मारुतं वरवर्णिनि पश्यतस्तस्य तत्रशेः अप्यग्निः समतेजसः विश्वामित्रस्ततस्तां तु विषमस्थामनिन्दितां वृद्धां वाससि सम्भ्रान्तां मेनकामुनिसत्तमः तदा तस्यारूपगुणान् दृष्ट्वा स तु चकारभावं संसर्गात् तया न्यमन्त्रयत चाप्येनां सा चाप्यैच्छदनिन्दिता तौ तत्र सुचिरं कालम् उभौ व्यवहरतां तदा रममाणौ यथा कामं तथा कामक्रोधावदितवान् मुनिर्नित्यं क्षमान्वितः चिरार्जितस्य तपसः क्षयं सकृतवान् ऋषिः तपसः संशयादेव मुनिर्मोहं समाविशत् कामरागाभिभूतस्य मुनेः पार्श्वं जगाम जनयामास स मुनिः मेनकायां शकुन्तलां प्रस्थे हिमवतो रम्ये मालिनीमभितो नदीं जातमुत्सृज्यतं गर्भं मेनका मालिनीमनु कृतकार्याततस्तूर्णम् अगच्छच्छक्रसंसदं विजने गर्भम् सिंहव्याघ्रसमाकुले दृष्ट्वा शयानं शकुनाः समन्तात्पर्यवारयन्नेमां हिंस्युर्वने बालां प्रव्यादामांसगृद्धिनः